ष्टयजुर्वेदे क्रमपाठे सप्तमकाण्डे द्वितीयः प्रश्नः प्रारम्भः ओ सा वै वै देवाः देवाः स्वर्गकामाः स्वर्गकामा एतम् स्वर्गकामाः एतकम् स्वर्ग षड्रात्रम् षड्रात्रमपश्यन् षड्रात्रमिति षड्रात्रम् अपश्यन्तम् तमा आहरन् अहरन्तेन तेनायजन्त अयजन्त ततो वै वै ते ते स्वर्गम् स्वर्गम् लोकम् स्वर्गमिति सुवहागम् लोकमाजन् आजनये आजन य एवम् एवम् विद्वागम् सः विद्वागम् स षड्रात्रम् षड्रात्रमासते षड्रात्रमिति आसते सुवर्गम् सुवर्गमेव सुवर्गमिति सुभागम् देवलोकम् लोकम् यन्ति विन्तिरेवसत्रम् देवसत्रम् वै देवसत्रमिति देवासत्रम् वैषड्रात्रः षड्रात्रः प्रत्यक्षम् षड्रात्रैः हि प्रत्यक्षमिति प्रत्यक्षम् ह्येतानि एतानि पृष्ठानि तिष्ठानि ये एवम् एवम् विद्वागुंसः विद्वाकुंसः षड्रात्रम् षड्रात्रमासते षड्रात्रमिति षट् रात्रम् आसते साक्षात् साक्षादेव साक्षादिति साक्षात् एव देवताराह देवता अभ्यारोहन्ति अभ्यारोहन्ति षड्रात्रः अभ्यारोहन्ति इति आरोहन्ति षड्रात्रो भवति षड्रात्र इति षट् भवति षट् षड्वै वा ऋतवः कृतवः षट्पृष्ठानि पृष्ठानि पृष्ठैः पृष्ठैरेव ते ऋतून् ऋतून् अन्वारोहन्ति अन्वारोहन्ति ऋतुभिः अन्वारोहन्ति तेन्वारोहन्ति ऋतुभिः संवत्सरम् ऋतुभिरि ऋतुभिः संवत्सरन्ति रेवत्सरमिति संवत्सरम् ते एव प्रति प्रतिष्ठन्ति तिष्ठन्ति बृहद्रथन्तराभ्याम् बृहद्रथन्तराभ्याम् यन्ति बृहद्रथन्तराभ्यामिति बृहदृथन्तराभ्याम् यन्ति इयम् इयम् वाव वावरथन्तरम् रथन्तरमसौ रथन्तरमिति रथन्तरम् असौ बृहत् बृहदाभ्याम् आभ्यामेव एव यन्ति यन्त्यथो अथो अनयोः अथो अनयोरेव एव प्रति प्रतिष्ठन्ति तिष्ठन्त्येते एते वि एते इत्येते द्वियज्ञस्य यज्ञस्य अञ्जसायिनी अञ्जसायिनी श्रुति अञ्जसायणि इत्यञ्जसायणि श्रुती ताभ्याम् श्रुति इति श्रुति ताभ्यामेव एव सुवर्गम् स्वर्गम् लोकम् सुवर्गमिति सुभागम् लोकञ्जन्ति त्रिवृत् त्रिवृदग्निष्टोमः भवति अग्निष्टोम इत्यग्नि तेजः तेज एव एवाव रुन्धते पञ्चदशः पञ्चदशो भवति पञ्चदश इति पञ्चादशः भवतीन्द्रियम् इन्द्रियमेव एवाव अवरुन्धते रुन्धते सप्तदशः सप्तदशो भवति सप्तदश इति सप्तादशः भवत्यन्नाद्यस्य अन्नाद्यस्यावरुद्धिः अन्नाद्यस्येत्यन्नाद्यस्य अवरुद्ध्या अथोः अवरुद्ध्या इत्यवृद्धिः अथोप्र अथो इत्यथोः त्रयैव एव तेन तेन जायन्ते जायन्त एकविपुंशः एकविगुंशो भवति एकविगुंश इत्येकः विगुंशः भवति प्रतिष्ठित्यै अथो प्रतिष्ठित्या इति प्रतिष्ठित्यै अथो रुचम् अथो इत्यथोः रुचमेव एवात्मन् आत्मन् दधते दधते त्रिणवः त्रिणवो भवति त्रिणव इति त्रिणवः विजित्यै त्रयस्त्रिवंशः विजित्यादि विजित्यै त्रयस्त्रिवंशो भवति त्रयस्त्रिवंश इति त्रयः भवति प्रतिष्ठित्यै प्रतिष्ठित्यै सदोहविर्धानिनः प्रतिष्ठित्या इति प्रतिष्ठिति सदोहविर्धानिन एतेन सदोहविर्धानिन इति शदः हविर्धानिनः एतेन षड्रात्रेण षड्रात्रेण यजेरन् षड्रात्रेणपि षड् रात्रेण यजेरन्नाश्वत्थी अश्वत्थे हविर्धानम् अश्वत्थी इत्याश्वत्थि हविर्धानम् च हविर्धानमिति हविः धानम् चाग्नीध्वम् आग्नेध्वम् च आग्नेयद्धमित्याग्नेयुद्धम् च भवतः भवतस्तद् तद्धि हि सुवर्ग्यम् स्वर्ग्यम् चक्रीवती स्वर्गमिति सुभाग्यम् चक्रीवती भवतः चक्रीवती इति चक्रीवती भवतः स्वर्गस्य लोकस्य स्वर्गस्य इति लोकस्य समष्टै समष्ट्या उलोखलबुध्नः समष्ट्या इति समष्ट्यै उलोखलबुध्मो यूपो भवति भवति प्रतिष्ठित्यै प्रतिष्ठित्यै प्राञ्चः प्रतिष्ठित्य इति प्रतिष्ठित्यै प्राञ्चो यान्ति यान्ति प्राङ् प्रा हि हि सुवर्गः लोकः स्वर्ग इति सुवभागः लोकः सरस्वत्या सरस्वत्या यान्ति पन्थाः देवयान इति देवायानः पन्थास्तम् त्वमेव एवान्वारोहन्ति अन्वारोहन्त्याक्रोशन्तः अन्वारोहन्तीत्यनुमारोहन्ति आक्रोशन्तो यान्त्रि आक्रोशन्त इत्याक्रोशन्तः यान्त्यवर्तिम् अवर्तिमेव एवान्यस्मिन् अन्यस्मिन् प्रतिषज्य प्रतिषज्य प्रतिष्ठाम् प्रतिषज्य इति प्रतिषज्य प्रतिष्ठाम् गच्छन्ति प्रतिष्ठामिति गच्छन्ति यदा एतादश दशशतम् शतम् कुर्वन्ति कुर्वन्त्यथ अथैकम् एकमुत्थानम् उत्थानकम् शतायुः उत्थानमित्यतस्थानम् शतायुः पुरुषः शतायुरिति शतायुः पुरुषशतेन्द्रियः शतेन्द्रिय आयुषि शतेन्द्रिय इति शता इन्द्रियः आयुष्येव एवेन्द्रिये इन्द्रिये प्रति प्रतिष्ठन्ति तिष्ठन्ति यदा यदा शतम् शतकम् सहस्रम् सहस्रम् कुर्वन्ति कुर्वन्त्यथ अथैकम् एकमुत्थानम् उत्थानकम् सहस्रसंहितः उत्थानमित्युतस्थानम् सहस्रसंहितो वै सहस्रसंहित इति वा असौ असौ लोकः लोकोमुमेव देवलोकम् लोकमभि अभिजयन्ति जयन्ति यदा यदैषाम् येषाम् प्रमीयेत प्रमीयेत यदा प्रमीयेतेति प्रमीयेत यदा वा जीयेरण् धीयेरण्ः तथैकम् एकमुत्थानम् उत्थानन्दत् उत्थानमित्युत्स्थानम् तद्धि ीर्थमिति तीर्थम् कुसुरविन्दद्दालकिः औद्दालकिलकामयत औद्दालकिरित्यौद्मयत पशुमान् पशुमान्स्यामम् पशुमानिति पशुमान् स्यामिति इति सः स एतम् एतपुम् सप्तरात्रम् सप्तरात्रमा सप्तरात्रमिति सप्तारात्रम् आहरत् अहरतेन तेनायजत यजततेन तेन वै वै सः स ग्राम्याः ग्राम्याः पशवः पशवस्तान् तानव अवारुन्ध वरुन्धयः य एवम् एवम् विद्वान् विद्वान्सप्तरात्रेण सप्तरात्रेण युजते सप्तरात्रेणेति सप्तारात्रेण युजते यावन्तः यावन्त एव ग्राम्याः ग्राम्याः पशवः पशवस्तान् तानेव एवाव अवरुन्धे रुन्धे सप्तरात्रः सप्तरात्रो भवति सप्तरात्र इति सप्तारात्रः भवति सप्त सप्त ग्राम्याः ग्राम्याः पशवः पशवः सप्तारण्याः आरण्याः सप्त सप्त छन्दांसि छन्दागस्य उभयस्य उभयस्यावरुध्यै अवरुध्यै त्रिवृत् अवरुद्ध्या इत्यवारुध्यै त्रिवृदग्निष्टोमः त्रिवृत्ति भवति अग्निष्टोम भवति तेजः तेज एव अवरुन्धे वृन्धे पञ्चदशः पञ्चदशो भवति पञ्चदश इति पञ्चादशः भवतीन्द्रियम् इन्द्रियमेव एवाव अवरुन्धे वृन्धे सप्तदशः सप्तदशो भवति सप्तदश इति सप्तादशः भवत्यन्नाद्यस्य अन्नाद्यस्यावरुद्धिः अन्नाद्यस्येत्यन्नाद्यस्य अवरुद्ध्या अथोः अवरुद्ध्या इत्यवरुद्धिः अथो अथो इत्यथोः त्रयैव एव तेन जायते जायते एकविपुंशः एकविगुंशो भवति एकविपुंश इत्येकः विगुंशः भवति प्रतिष्ठित्यै प्रतिष्ठित्य अथो प्रतिष्ठित्य इति प्रतिष्ठित्यै अथोरुचम् अथो इत्यथो रुचमेव एवात्मन् आत्मन्धत्ते धत्ते तृणवः तृणवो भवति त्रिणव इति त्रिणवः भवति विजित्यै विजित्यै पञ्चविकुंशः विजित्यादिति विजित्यैः पञ्चविकुंशोऽष्टोमः पञ्चविकुंश इति पञ्चाविकुंशः अग्निश्लोमो भवति अग्निष्लोम इत्यग्नि स्तोमः भवति प्रजापतेः प्रजापतेराप्यै प्रजापतेरति प्रजापतेः आप्यै महाव्रतवान् महाव्रतवानन्नाद्यस्य महाव्रतवान् इति महाम्प्रतावान् अन्नाद्यस्यावरुध्यै अन्नाद्यस्येत्यन्नाद्यस्य अवरुद्ध्यै विश्वजित् अवरुद्ध्या इत्यवरुद्धिः विश्वजित् सर्वपृष्ठः विश्वजित् इति विश्वजित् सर्वपृष्ठोति रात्रः सर्वपृष्ठ अतिरात्रो भवति अतिरात्र इत्यतिरात्रः भवति सर्वस्य सर्वस्याभिजित्यै अभिजित्यै यत् अभिजित्या इत्यभिजित्यः यत्प्रत्यक्षम् प्रत्यक्षम् भूगेषु प्रत्यक्षमिति प्रत्यक्षम् पूर्वेश्वहस्सु अहस्सु पृष्ठानि अहस्वित्यहसु पृष्ठान्युपेयुः उपेयुः प्रत्यक्षम् उपेयुद्युपायुः प्रत्यक्षम् विश्वजिति पर्दक्षमिति प्रतिक्षम् विश्वजिति यथा विश्वजिति विश्वजिति यथा दुग्धा दुग्धामुपसीदति उपसीदत्येवम् उपसीदतीत्युपासीदति एवमुत्तमम् उत्तममहः उत्तममित्युत्तमम् अहः एकरात्र इत्येका रात्रः शरः स्याद्बृहद्रसन्तरे बृहद्रसन्तरे पूर्वेषु बृहद्रसन्तरे इति बृहत् रथन्तरे पूर्वेष्वहसु अहस्सूप अहस्वित्यहहासु उपयन्ति यन्ति वाव वावरथन्तरम् रथन्तरमसौ रथन्तरमिति रथन्तरम् असौ बृहत् बृहदाभ्याम् आभ्यामेव एव नयन्ति यन्त्यथो अथो अनयोः अथो इत्यथो अनयोरेव एव प्रति प्रतिष्ठन्ति तिष्ठन्ति प्रत्यक्षम यत्प्रत्यक्षम् प्रत्यक्षम् विश्वजिति प्रत्यक्षमिति प्रतियक्षम् विश्वजिति पृष्ठानि विश्वजिति विश्वजलि पृष्ठान्युपयन्ति उपयन्ति यथा उपयन्तेत्युपायन्ति यथा प्रत्ताम् प्रत्ताम् दुहे दुहे तादृग् तादृगेव एव तत् तदिजि तत् बृहस्पतिरकामयत अकामयत् ब्रह्मवर्चसी ब्रह्मवर्चसी ब्रह्मवर्चसीति ब्रह्म वर्चसी स्यामिति इति सः स एतम् एतमष्टरात्रम् अष्टरात्रमपश्यत् अष्टरात्रमित्यष्टारात्रम् अपश्यत्तम् तमा आहरत् अहरत्तेन तेनायजत अयजत ततः ततो वै वै सः स ब्रह्मवर्चसी ब्रह्मवर्चस्य भवत् ब्रह्मवर्चसीति ब्रह्म वर्चसी भवद्यः य एवम् एवम् विद्वानष्टरात्रेण अष्टरात्रेण इजते अष्टरात्रेण इत्यष्टारात्रेण इषते ब्रह्मवर्चसी ब्रह्मवर्चस्येव ब्रह्मवर्चसीति ब्रह्मवर्चसी एव भवति भवत्यष्टरात्रः अष्टरात्रो भवति अष्टरात्रेत्यष्टारात्रः भवत्यष्टाक्षरा अष्टाक्षरा गायत्री अष्टाक्षरेत्यष्टा अक्षरा गायत्री गायत्री गायत्री ब्रह्मवर्चसम् ब्रह्मवर्चसम् गायत्र्या ब्रह्मवर्चसमिति ब्रह्मवर्चसम् गायत्र्यैव एवब्रह्मवर्चसम् ब्रह्मवर्चसमव ब्रह्मवर्चसमिति ब्रह्मवर्चसम्धे वन्धे अष्टरात्रः अष्टरात्रो भवति अष्टरात्र इत्यष्टारात्रः भवति चतस्रः चतस्रो वै वै दिशः दिशश्चतस्रः चतुस्रोवान्तरदिशाः अवान्तरदिशादिभ्यः अवान्तरदिशा इत्यवान्तरादिशाः युग्भ्य एव युभ्येतिभ्यः एव ब्रह्मवर्चसमिति ब्रह्मवर्चसम् अवरुन्धे वृन्धे त्रिवृद् त्रिवृदग्निष्टोमः त्रिवृदित्रेवृद् अग्निष्टोमो भवति अग्निष्टोम इत्यग्निस्तोमः भवति तेजः तेज एव एवा अवरुन्धे वृन्धे पञ्चदशः पञ्चदशो भवति पञ्चदश इति पञ्चादशः इन्द्रियमेव एवा अवरुन्धे वृन्धे सप्तदशः सप्तदशो भवति सप्तदश इति सप्तादशः भवत्यन्नाद्यस्य अन्नाद्यस्यावरुद्धि अन्नाद्यस्येत्यन्नाद्यस्य अवरुद्ध्याथो अवरुद्ध्या इत्यवावृद्धिः अथो प्र अथोरित्यथो प्रैव एव तेन तेन जायते जायते एकविघुंशः एकविघुंसो भवति एकविघुंश इत्येका विघुंशः भवति प्रतिष्ठित्यै प्रतिष्ठित्या अथो प्रतिष्ठित्या इति प्रतिष्ठित्यै अथो इत्यथो रुचमेव एवात्मन् आत्मन्धत्ते धत्ते त्रिणवः त्रिणवो भवति त्रिणव इति त्रे नवः भवति विजित्यै विजित्यै त्रयस्त्रिवंशः विजित्या इति विजित्यै त्रयस्त्रिगंशो भवति त्रयस्त्रिकंश इति त्रयः त्रिवंशः भवति प्रतिष्ठित्यै प्रतिष्ठित्यै पञ्चविघुंशः प्रतिष्ठित्या इति प्रतिष्ठित्यै पञ्चविघुंशो पञ्चविवंश इति पञ्चाविवंशः अग्निष्टोमो भवति अग्निष्टोम इत्यग्निमः प्रजापदेवाप्यै प्रतापतेरविप्रजापतेः आप्त्यै महाभ्रतवान् महाभ्रतवान् अन्नाद्यस्य महाभ्रतवानि महाव्रतावान् अन्नाद्यस्यावरुद्धि अन्नाद्यस्येत्यन्नाद्यस्य अवृद्धि विश्वजित् अवरुद्धा वृत्यरुद्धिः विश्वजित् सर्वपृष्ठः विश्वजिजीश्व सर्वपृष्ठोऽपि रात्रः सर्वपृष्ठति सर्वापृष्टः अपि रात्रोरि अपि रात्रः सर्वस्य सर्वस्याभिजित्यै अभिजित्या इत्यभिजितिः प्रजापतिः प्रजाः प्रजापतिविजप्रजापतिः प्रजा असृजत प्रजा इति प्राजाः ताः सृष्टाः सृष्टाः क्षुधम् क्षुधम्नि न्यायन् आयान्सः स एतम् एतन्नवरात्रम् नवरात्रमपश्यत् नवरात्रमिति नवरात्रम् तमा आहरत् अहरत्तेन तेनायजत अयजत ततः वै वै प्रजाभ्यः प्रजाभ्योऽकल्पत प्रजाभ्य इति प्राजाभ्यः अकल्पत प्रजाः प्रजाः क्षुधम् प्रजा इति प्राजाः क्षुधम् निगच्छेयुः निगच्छेयुस्तर्हि निगच्छेयुरिति निगच्छेयुः नवरात्रेण नवरात्रेण यजेत नवरात्रेणेति इमेहि हि वै वा एतासाम् एतासाम् लोकाः लोका अग्लप्ताः लोका अग्रप्ताथ अथैताः एताः क्षुधम् क्षुधम्नि निगच्छन्ति गच्छन्ति इमान् इमानेव एवाभ्यः आभ्यो लोकान् लोकान् कल्पयति कल्पयति तान् तान कल्पमानान् कल्पमानान् प्रजाभ्यः प्रजाभ्यो प्रजाभ्यैः प्राजाभ्यः अनुकल्पते कल्पते कल्पन्ते कल्पन्तेऽस्मि अस्मा इमे इमे लोकाः लोका ऊर्जम् ऊर्जम् प्रजासु प्रजासु दधाति प्रजास्विति प्राजासु दधाति त्रिरात्रेण त्रिरात्रेण एवेमम् इमम् लोकम् लोकम् कल्पयति कल्पयति त्रिरात्रेण त्रिरात्रेण अन्तरिक्षम् त्रिरात्रेणेति त्रिरात्रेण अन्तरिक्षम् त्रिरात्रेणामम् त्रिरात्रेण इति त्रिरात्रेण अमुल्लोकम् लोकम् यथा यथा गुणे गुणे गुणम् गुणमन्वस्यति अन्वस्यत्येवम् अन्वस्यतीत्यनुवस्यति एवमेव एव तत् तल्लोके लोके लोकम् लोकमनु अन्वस्यति अस्यति धृत्यैः धृत्या अशिथिलम्भावाय अशिथिलम्भावाय ज्योतिः अशिथिलम्भावायत्यशिथिलम्भावाय ज्योतिर्गौः गौरायुः आयुरिति इति ज्ञाताः ज्ञाता स्तोमाः स्तोमा भवन्ति भवन्तीयम् इयम् वाव वावज्योतिः ज्योतिरन्तरिक्षम् अन्तरिक्षङ्गौः द्वौ रसौ एव लोकेषु लोकेषु प्रति प्रतिष्ठन्ति तिष्ठन्ति ज्ञातम् ज्ञातम् प्रजानाम् प्रजानाम् गच्छति प्रजानामिति गच्छति नवरात्रः नवरात्रो भवति नवरात्र इति न वा रात्रः भवत्यभिपूर्वम् अभिपूर्वमेव अभिपूर्वमित्यभिपूर्वम् एवास्मिन् अस्मिन्तेजः तेजो दधाति दधाति यः यो स्यात् ज्योगामयाभिज्योगामयाभिः स्यात्सः स नवरात्रेण नवरात्रेण यजेत नवरात्रेण यजेत प्राणाः प्राणाहि प्राणाति प्राणाः हि वै एतस्य एतस्याधृताः अधृता अथ अथ एतस्य एतस्य ज्योग ज्योगामयति आमयति प्राणान् प्राणानेव प्राणानिति प्राणान् एवास्मिन् अस्मिन् राधार राधारोत उत यदि यदीतासुः इतासुर्भवति इतासुरितितासुः भवति जीवति जीवत्येव एवेत्येव प्रजापचलकामयत प्रजापचलतिप्रजाभिः कामयतप्र प्रजायेज रजा येजेति इति एतन सजेतम् एतम् दशहोतारम् दशहोतारमपश्यत् दशहोतारमिति दशाहोतारम् अपश्यत्तम् नमजुहोत् अजुहोत्तेन तेन दशरात्रम् दशरात्रमसृजत दशरात्रमिति दशा रात्रम् असृजतेन तेन दशरात्रेण दशरात्रेण प्र दशरात्रेणेति दशारात्रेण प्राजायत अजा इति दशरात्राय दशरात्राय दीक्षिष्यमाणः दशरात्रा एति दशारात्राय दीक्षिष्यमाणो दशहोतारम् दशहोतारम् जुहुयात् दशहोतारमिति दशाहोतारम् जुहुयाद्दशहोत्रा दशहोत्रैव दशहोत्रेति दशाहोत्रा एव दशरात्रम् दशरात्रकम् सृजते दशरात्रमिति सृजते तेन एन दशरात्रेण दशरात्रेण प्र दशरात्रेणेति दशारात्रेण प्रजायते जायते वैराजः वैराजो वादेशः एष यज्ञः यज्ञो यद् यद्दशरात्रः दशरात्रो यः एवम् एवम् विद्वान् विद्वान् दशरात्रेण रसरात्रेण यजते दशरात्रेण यजते विराजम् विराजमेव विराजमिति विराजम् एव गच्छति गच्छति प्राजापत्यः वै प्राजापत्य इति प्राजापत्यः एष यज्ञः यज्ञो यत् यद्दशरात्रः दशरात्रो यः दशरात्र इति दश रात्रः य एवम् एवम् विद्वान् विद्वान् दशरात्रेण दशरात्रेण यजते दशरात्रेणेति दश यजते प्रैव एव जायते जायत इन्द्रः इन्द्रो वै वै सदृङ् सदृङ् देवताभिः सैङ् इति सादृङ् देवताभिरासीत् आसीत् सः स न व्यावृतमिति वि आवृतम् अयच्छत्सः स प्रजापतिम् प्रजापतिमुप प्रजापतिमिति प्रजावृतिम् उपाधावत् तथावत्तस्मै तस्मा एतम् एतम् दशरात्रम् दशरात्रम् प्र दशरात्रमिति दशा रात्रम् प्रायच्छत् अयच्छत्तम् तमा आहरत् अहरत्तेन तेनायजत अयजत ततः ततो वै त्वयि सह सोऽन्याभिः अन्याभिर्देवताभिः व्यावृतमिति वि आवृतम् अगच्छद्यः एवम् एवम् विद्वान विद्वान् दशरात्रेण दशरात्रेण यजते दशरात्रेणेति दशरात्रेण यजते व्यावृतम् व्यावृतमेव व्यावृतमिति वि आवृतम् एवपात्मना पाप्मना भ्रातृव्येण लेन, भ्रातृव्येण गच्छति गच्छति त्रिककृत् त्रिककुद्वै त्रिकुदिति त्रिककृद् महा एषः दशरात्रः ककृत् दशरात्र इति दश रात्रः पञ्चदशः ककुत् पञ्चदश इति पञ्चादशः ककुदेकविघुंशः एकविपुंशः ककुत् एकविगुंश इत्येकः विपुंशः यः त्रयस्त्रिगुंश इति त्रयः त्रिपुंशः एवम् एवम् विद्वान् विद्वां दशरात्रेण दशरात्रेण यजते दशरात्रेणेति दश रात्रेण यजते त्रिकुत् त्रिकुदेव त्रिकुदिति त्रिकृत् एव समानानाम् समानानाम् भवति भवति यजमानः यजमानः पञ्चदशः पञ्चदशो यजमानः पञ्चदश इति पञ्चादशः एकविगुंशः एकविगुंशो यजमानः एकविगुंश इत्येकविगुंशः यजमानस्त्रयस्त्रिवंशः त्रयस्त्रिवंशः पुरः त्रयस्त्रिवंश इति त्रयः त्रिवंशः पुर इतराः इतरा अभिचर्यमाणः अभिचर्यमाणो दशरात्रेण अभिचर्यमाण इत्यभिचर्यमाणः दशरात्रेण यजेत दशरात्रेणेति दशा रात्रेण यजेत देवपुराः देवपुरा एव देवपुरा इति देवापुराः एव परि पर्यूहते ऊहते तस्य कस्य न कुतश्चन नोपा व्याधः उपाव्याधो भवति उपाव्याध इत्युपा व्याधः भवति नैनम् एनमभिचरन् अभिचरन् स्तृणते अभिचरन् इत्यभिचरन् स्तुमते देवासुराः देवासुराः संयत्ताः देवासुरा इति देवासुरा देवासुराः संयत्ता आसन् संयत्ता इति संयक्ताः आसन् ते देवाः देवा एताः देवा एतादेव एता पुराः देवपुरा अपश्यन् देवपुरा इति दशरात्रस्ताः दशरात्र इति दश रात्रः ताः परि पर्यौहन्त औहन्त तेषाम् येषाम् न न कुतः कुतश्चन च नोपाव्याधः ततो देवाः देवा अभवन् अभवन्पराः परासुराः असुरायः योभ्रातृर्यवान् भ्रातृव्यवान् स्यात् भ्रातृव्यवान् इति भ्रातृव्यवान् स्यात् सः स दशरात्रेण दशरात्रेण यजेत दशरात्रेणेति दश रात्रेण यजेत देवपुराः देवपुरा एव देवपुरा इति देवापुराः एव परि व्याथ इत्युपा व्याथः भवति भवति भवत्यात्मना आत्मना परास्य तस्य भ्रातृव्यः भ्रातृव्यो भवति भवति स्तोमः स्तोमस्तोमस्य स्तोमस्योपस्थितिः उपस्थिर्भवति भवति भ्रातृव्यम् भ्रातृव्यमेव एवोपस्थिम् उपस्थिम् कुरुते कुरुते जामि जामि वै वा एतत् एतत्कुर्वन्ति कुर्वन्त्येत् यज्यायागुम् ज्यायागुम्सोमम् त्वाम उपेत्य उपेत्यनीयागुंसम् उपेत्येत्युपादित्य अनीयागुंसमुपयन्ते उपयन्त्य उपयन्तेत्युपायन्तेष्टोमसामानि अग्निष्टोमसामान्यवस्ताहात् अग्निष्टोमसामानि इत्यग्निष्टोम सामानि अवस्थाच्च च परस्तात् परस्ताच्च भवन्ते भवन् तिजामि त्वाय रजामि त्वायत् हृद् रजामि त्वादे त्र्यजामि तरुदग्निष्टोमः तरुत्रैवत् अग्निष्टोमो अग्निष्टुत् अग्निष्टोम इत्यग्ने भवति भवति तेजः एवाव अवरुन्धे रुन्धे पञ्चदशः पञ्चदश उक्थ्यः पञ्चदश इति पञ्चादशः उक्थ्य ऐन्द्रेषु ऐन्द्रीष्विन्द्रियम् इन्द्रियमेव एवाव अवरुन्धे वृन्धे त्रिवृत् त्रिवृदग्निष्टोमः त्रिवृद् क्लिवृद् अग्निष्टोमो वै ईश्वदेवेषु अग्निष्टोम इत्यग्ने स्तोमः वैष्वदेवेषु पुष्टिमेव एवाव अवरुन्धे वृन्धे सप्तदशः सप्तदशोऽनिष्टोमः सप्तदश इति अग्निष्टोमः प्राजापत्यासु अग्निष्टोम प्राजापत्यासु प्राजा तीव्रसोमः प्राजापत्यास्विति प्राजावत्यासु तीव्रसोमो अन्नाद्यस्य तीव्रसोम इति तीव्रासो अन्नाद्यस्य अवरुद्धिः अन्नाद्यस्येत्यन्नाद्यस्य अवरुद्ध्या अथो अवरुद्ध्या इत्यववृद्धिः अथो प्र अथो इत्यथो प्रैव एव तेन तेन जायते जायते एकविंशः एकविवंश उक्थ्यः एकविवंश इत्येकः विवंशः उक्थ्यः सौरेषु सौरेषु प्रतिष्ठ्यत्यै प्रतिष्ठ्यत्या अथो प्रतिष्ठ्यत्या इति प्रतिष्ठत्यै अथोरुचम् अथो धत्ते धत्ते सप्तदशः सब्दशोऽग्निष्टोमः सब्ददश इति सब्दादशः अग्निष्टोमः प्राजामज्जासौ प्राजाप्रत्यासु उपहव्यः प्राजाप्रत्यास्विति प्राजावत्यासु उपहव्य उपहवम् उपहव्य इत्युपाहव्यः उपहवमेव उपहवमित्युपाहवम् एव गच्छति गच्छति त्रिणवौ त्रिणवावग्निष्ठोमौ त्रिणवाविजित्रेणवौ अग्निष्ठोमावभितः अग्निष्ठोमाविद्यग्ने स्तोमौ अभित ऐन्द्रेषु ऐन्द्रेषु विजित्यै त्रयस्त्रिकंश उक्थ्यः त्रयस्त्रिकंश इति त्रयः त्रिकंशः उक्थ्यो वैश्वदेवेषु वैश्वदेवेषु प्रतिष्ठित्यै वैश्वदेवेष्वैश्वदेवेषु प्रतिष्ठित्यै विश्वजित् प्रतिष्ठित्य इति प्रतिष्ठित्यै विश्वजित् सर्वपृष्ठः विश्वजिति विश्वजित् सर्वपृष्ठोदि रात्रः सर्वपृष्ठ इति सर्वा पृष्ठः अधिरात्रो भवति अधिरात्र इत्य रात्रः भवति प्रतवो वै वै प्रजाकामाः प्रजाकामाः प्रजाम् प्रजाकामा इति प्रजाकामाः प्रजान्न प्रजामितिप्राजा मा विन्दन्त अविन्दन्त ते ते कामयन्द अकामयन्द प्रजामव प्रजामितिप्राजाम् अवरुन्धीमहि रुन्धीमहि प्रजा प्रजामिति प्राजाम् हि प्रजावन्तः प्रजावन्तः स्याम प्रजावन्ध इति स्यामेति इति ते तयेतम् एतमेकादशरात्रम् एकादशरात्रमपश्यन् एकादशरात्रमित्येकादशरात्रम् तमा आहरन् अहरन्तेन तेनायजन्त अयजन्त ततः ततो वै वै ते ते प्रजाम् प्रजामसृजन्त प्रजामिति प्राजाम् सृजन्त प्रजामितिप्राजाम् अवारुन्धत अरुन्धत प्रजाम् प्रजामविन्दन्त प्रजामितिप्राजाम् अविन्दन्त प्रजावन्तः प्रजावन्तोभवन् प्रजावन्त इति प्रजावन्तः अभवन्ते तर्तवः अभवन्तत् तदार्तवानाम् आर्तवानामार्तवत्त्वम् आर्तवत्वनाम् आर्तवत्वमित्यार्तवत्वम् रतोनाम् वै वा एते एते पुत्राः पुत्रास्तस्मात् तस्मादार्तवाः आर्तवा उच्यन्ते उच्यन्ते ये य एवम् एवम् विद्वागुंसः विद्वागुंस एकादशरात्रम् एकादशरात्रमासते एकादशरात्रमित्येकादशरात्रम् आसते प्रजाम, प्रजाम प्रजाम प्रजाम् प्रजामेव प्रजामिति प्राजाम् एव सृजन्ते सृजन्ते प्रजाम् प्रजामव प्रजामिति दं प्राजाम् अवरुन्धते रुन्धते प्रजाम् प्रजाम् विन्दन्ते प्रजामिति प्रजावन्तो भवन्ति प्रजावन्त इति प्रजावन्तः भवन्ति ज्योतिः ज्योतिरतिरात्रः अतिरात्रो भवति अतिरात्रिरात्रः भवति ज्योतिः ज्योतिरेव एव पुरस्तात् पुरस्ताद्दधते दधते सुवर्गस्य स्वर्गस्य लोकस्य स्वर्गस्य इति सुभागस्य लोकस्यानुख्यात्यै अनुख्यात्यै पृष्ठ्यः अनुख्यात्या इत्यनुख्यातिः पृष्ठ्यः षडः षडो भवति षडः इति भवति षट् षड्वै वा ऋतवः ऋतवः षट् पृष्ठैरेव एवन् ऋतोनन्वारोहन्ति अन्वारोहन् ऋतुभिः अन्वारोहन्ति आरोहन्ति ऋतुभिः संवत्सरम् ऋतुभिरि ऋतुभिः संवत्सरं ते संवत्सरमिति संवत्सरम् ते संवत्सरे संवत्सर एव संवत्सर इति संवत्सरे एव चतुर्विवंशः भवति चतुर्विवंशे इति चतुर्विवशः भवति चतुर्विंशत्यक्षरा चतुर्विंशत्यक्षरा गायत्री चतुर्विंशत्यक्षरे इति चतुर्विघंशते अक्षराः गायत्रे गायत्रम् गायत्रम् ब्रह्मवर्क्षसम् ब्रह्मवर्चसम् गायत्र्याम् ब्रह्मवर्त्रसमिति ब्रह्मवर्चसम् गायत्र्यामेव एव ब्रह्मवर्तसे ब्रह्मवर्तसे प्रति ब्रह्मवर्तसे इति ब्रह्मवर्चसे प्रति तिष्ठन्ति तिष्ठन्ति चतुश्चत्वारि निंशः चतुश्चत्वारिनिंशो भवति चतुश्चत्वारि विंशे इति चतुश्चत्वारिनिंशः भवति चतुश्चत्वारिविंशदक्षरा चतुश्चत्वारिविंशदक्षरा दृष्टु इन्द्रियम् दृष्टु दृष्टु दृष्टुभिः दृष्टुभ्येव एवेन्द्रिये इन्द्रिये प्रति प्रतिष्ठन्ति तिष्ठन्त्यष्टाचत्वारिवंशः अष्टाचत्वारिवंशो भवति अष्टाचत्वारिवंशे इत्यष्टाचत्वारिवंशः भवत्यष्टाचत्वारित्रिंशदक्षरा अष्टाचत्वारिंशदक्षरा जगति अष्टाचत्वारिंशदक्षरे अष्टाचत्वारिविंशदक्षराः जगति जागताः जागताः पशवः जगत्यामेव एव पशुषु पशुष प्रति तिष्ठन्त्येकादशरात्रः एकादशरात्र भो हि एकादशरात्र इत्येकादश रात्रः भवति पञ्चवै आर्तवः ऋतव आर्तवाः पञ्च पञ्चर्तुषु ऋतुष्वेव एवार्तवेषु आर्तवेषु संवत्सरे संवत्सरे प्रतिष्ठाय संवत्सर इति संवत्सरे प्रतिष्ठाय प्रजाम् प्रतिष्ठाय इति प्रतिष्ठाय प्रजामव प्रजामिति गृन्धतेति रात्रौ अतिरात्रा अभिदः अतिरात्रा विद्यते रात्रौ अभितो भवतः भवतः प्रजायैः प्रजायै परिगृहीत्यै प्रजाया यदि प्राजायैः परिगृहेत्यायदि परिगृहेत्यै ऐन्द्रवायवाग्रानम् गृह्णीयाद् ऐन्द्रवायवाग्रान् इत्यैन्द्रवायवाग्रान् गृह्णेयाद्यः यः कामयेत कामयेति यथापूर्वम् यथापूर्वम् प्रजाः यथापूर्वमिति यथा पूर्वम् प्रजाः कल्पेरन् प्रजा इति प्राजाः कल्पेरन्निति इति यज्ञस्य यज्ञस्य वै वैक्लप्त्यम् क्लप्त्यमनु अप्रजाः प्रजाः कल्पन्ते प्रजा इति प्राजाः कल्पन्ते यज्ञस्य यज्ञस्याक्लृप्त्यम् न अनुना न कल्पन्ते कल्पन्ते यथापूर्वम् यथापूर्वमेव यथापूर्वमिति यथापूर्वम् एव प्रजाः प्रजाः कल्पयति प्रजा इति प्राजाः कल्पयति <building> न ज्यायागुम् सम् ध्यायागम् सङ्गनीयान् कनीयान्ति रिक्रामरि क्रामत्यैन्द्रवायवाग्रान् ऐन्द्रवायवाग्रान् गृह्णीयान् ऐन्द्रवायवाग्रान्त्यैन्द्रवाजवाग्रान् गृह्णीयादामयाविनः आमयाविनः प्राणेन प्राणेन वि प्राणेनेति प्राणेन वा आमयति प्राणः प्राण ऐन्द्रवायवः प्राण इति प्राणः ऐन्द्रवायवः प्राणेन ऐन्द्रवायव इत्य इन्द्रावायवः प्राणेनैव प्राणेनेति प्राणेन एवैनम् येन पुंसम् समर्धयति अर्धयति मैत्रावृणाग्रान् मैत्रावृणाग्रान् गृह्णीरन् मैत्रावृणाग्रान् इति मैत्रावृणाग्रान् गृह्णीरन् येषाम् येषाम् प्रमीयेत प्राणापानाभ्याम् प्रमीयेतेति प्रमीयेत प्राणापानाभ्याम् वै प्राणापानाभ्यामिति प्राणापानाभ्याम् वा एते एते विरुध्यन्ते गृध्यन्ते येषाम् येषाम् दीक्षितानाम् दीक्षितानाम् प्रमीयते प्रमीयते प्राणापानौ प्रमीयत इति प्रमीयते प्राणापानौ मित्रावृणौ प्राणापानामिति प्राणापानौ मित्रावृणौ मित्रावृणाविधित्रावृणौ प्राणापानावेव प्राणापानाविधि प्राणापानौ एव मुखतः मुखतः परि परिहरन्ते हरन्दाशिणाग्रान् अश्विणाग्रान् गृह्णीता अश्विणाग्रान् इत्याशिणाग्रान् गृह्णीतानुजावरः अनुजावरो अश्विनौ अनुजावर इत्यानुजावरः अश्विनौ वै वै देवानाः देवानामानुजावरौ अनुजावरौ पश्चा अनुजावराविद्यानुजावरौ पश्चैव इवाग्रम् अग्रम् परि पर्यैताम् एतामश्विनौ अश्विनावेतस्य एतस्य देवता देवतायः आनुजावरः आनुजावरस्तौ अनुजावरैद्यानुजावरः तावेव एवैनम् एनमग्रम् अग्रम् परिणयतः एतशुक्राग्रान् शुक्राग्रान् गृह्णीत शुक्राग्रागति शुक्राग्रान् गृह्णीत गतश्रीः गतश्रीः प्रतिष्ठागामः गतश्रीरितिगताश्रीः प्रतिष्ठागामोऽसौ प्रतिष्ठागाम इति प्रतिष्ठागामः असौ वै वा आदित्यः आदित्यः शुक्रः शुक्र एषः एषोऽन्तः अन्तोऽन्तम् अन्तम् मनुष्यः मनुष्यश्रियै श्रियै गत्वा गत्वानि निवर्तते वर्तते अन्तात् अन्तादेव न्ता एवान्तम् अन्तमा आरभते रभतेन न ततः तदस्पापीयान् भवति भवति मन्थ्यग्रान् मन्थ्यग्रान् गृह्णीता मन्थ्यग्रान् इति मन्थे अग्रान् गृह्णीताभिजरन् अभिजलन् आर्तपात्रम् अभिजलन्नित्यभिजरन् आर्तपात्रम् वै आर्तपात्रमित्यार्तापात्रम् वा एतत् एतद्यत् यन्मन्थिपात्रम् मन्थ्यपात्रम् मृत्युनाह मन्थिपात्रमिति मन्थ्ये पात्रम् मृत्युनैव एवैनम् एनम् ग्राहयति ग्राहयति ताजग ताजगार्तिम् आर्तिमा आर्च्छति गच्छत्याग्रेणाग्रान् आग्रेणाग्रान् गृह्णीत आग्रेणाग्रान् इत्याग्रेणाग्रान् गृह्णीत यस्य पिता पितापितामहः पितामहः पुण्यः पुण्यः स्यात् स्यादथ अथ तत् तन्न प्रा आप्नुयात् वाचा वि वादेशः एष इन्द्रियेण पृथ्युतेजस्य यस्य पिता पितापितामहः पितामहः पुण्यः पिता पन्या, पुण्यो भवति भवद्यथा अथदत् तन्न न प्राप्नोति प्राप्नोत्युरः प्राप्नोतीति इवा, एतद्यज्ञस्य यज्ञस्य वाग् वागिव इव यदा आग्रेणः आग्रेणो वाचा वाचैव एवैनम् एनमिन्द्रियेण इन्द्रियेण सम् समर्धयति अर्धयति न ततः ततः पापीयान् पापीयान् भवति भवत्युक्थ्याग्रान् उथ्याग्रान् गृह्णीत उक्थ्याग्रान् इत्युक्थ्याग्रान् गृह्णीताभिचर्यमाणः अभिचर्यमाणः सर्वेषाम् अभिचर्यमाण इत्यभिचर्यमाणः सर्वेषाम् वै वा एतत् एतत्पात्राणाम् पात्राणामिन्द्रियम् इन्द्रियम् यत् यदुक्थ्यपात्रम् उत्थ्यपात्रकम् सर्वेण उक्त्यपात्रमित्युक्त्या पात्रम् सर्वेणैव एवैनम् येन इन्द्रियेण इन्द्रियेणाति अपिप्रयुङ्के युङ्क्ते सरस्वति सरस्वत्यभि अभिनः नो नेषि नेषि वस्यः वस्य इति पुरोरुचम् पुरोरुचम् कुर्याद् पुरोरुचमिति पुरः रुचनम् कुर्याद्वाग् वै सरस्वती सरस्वती वाचैव एवैनम् येन मति अतिप्र युङ्ते युङ्क्ते मा त्वत् सुक्षेत्राणि क्षेत्राण्यरणानि करणानि गन्म इत्याह आहमृत्योः मृत्योर्वै वै क्षेत्राणि क्षेत्राण्यरणानि रणालितेन तेनैव एव मृत्योः मृत्योः क्षेत्राणि क्षेत्राणि न गच्छति गच्छति पूर्णान् पूर्णान् ग्रहान् ग्रहान् गृह्णीयात् गृह्णीयादामयाविनः आमयाविनः प्राणान् प्राणान् वै प्राणानदिप्राणान् एतस्य एतस्य शु शुगृच्छति गृच्छति यस्य यस्यामयति आमयति प्राणाः प्राणाग्रहाः प्राणा इति प्राणाः ग्रहाः प्राणान् प्राणानेव प्राणानतिप्राणान् एवास्य अस्य शुचः शुचमुञ्चतिुत उत यदि यदीतासुः हितासुर्भवति हितासुरितीतासुः भवति जीवति जीवत्येव एव पूर्णान् पूर्णाङ्ग्रहान् ग्रहान् गृह्णीयात् गृह्णीयाद्यर्हि यर्हि पर्जन्यः पर्जन्यो न वर्षेत् वर्षेत् प्राणान् प्राणान् वै प्राणानति प्राणान् वा एतर्हि एतर्हि प्रजानाम् प्रजानाद्यंशुक् प्रजानामिति पर्जन्यः पर्जन्यो न वर्षति प्राणाग्रहाः प्राणादिति प्राणाः ग्रहाः प्राणान् प्राणानेव प्राणानि प्राणान् एव प्रजानाम् प्रजानागंशुचः मुञ्चति मुञ्चति ताजग ताजग्रा प्रवर्षति वर्षति वा ऐ इन्द्रवायवः ऐन्द्रवायवो गायत्रम् ऐन्द्रवायवैत्य प्राजनीयमहः प्राजनीयमिति प्राजनीयम् अहस्तस्मात् तस्मात्प्राजनीये प्राजनीये प्राजनीय इति प्राजनीये अहम् ऐन्द्रवायवः ऐन्द्रवायवो गृह्यते ऐन्द्रवायव इत्यन्द्रवायवः गृह्यते स्वे स्व एवैनम् एनमायतने आयतने गृह्णाति आयतन इत्यायतने गृह्णाति त्रैष्टुभः त्रैष्टुभो वै वै तेष्टभम् द्वितीयम् द्वितीयमः अहस्तस्माद् तस्माद्वितीये द्वितीयेऽहन् अहम् शुक्रः शुक्रो गृह्यते गृह्यते स्वे स्व एवैनम् एनमायतने आयतने गृह्णाति आयतन इत्यायतने जागतः जागतो वा आग्रयणः आग्रयणो जागतम् जागतम् तृतीयम् तृतीयमः अहस्तस्माद् तस्मात्तृतीये तृतीयेहन् अहन्नाग्रयणः आग्रेणो गृह्यते गृह्यते स्वे स्व एवैनम् एनमायतने आयतने गृह्णाति आयतन इत्यायतने गृह्णात्येतत् इत एतद्वै वै यज्ञम् यज्ञमापद् बद, आपद्यत् यच्छन्दाकम्सि छन्दाकस्याप्नोति आप्नोति यत् यदा आग्रेणः आग्रयेणश्वः गृह्यते गृह्यते यत्र यत्रैव एव यज्ञम् यज्ञमदृशन् अदृशन् ततः तत एवैनम् पुनः पुनः प्रयुङ्क्ते जगन्मुखः जगन्मुखो वै जगन्मुख इति जगत्मुखः वै द्वितीयः द्वितीयस्त्रिरात्रः त्रिरात्रो जागतः त्रिरात्र इति त्रिरात्रः जागताग्रेणः आग्रेणो यत् यच्चतुर्थे चतुर्थेऽहन् अहन्नाग्रेणः आग्रेणो गृह्यते गृह्यते स्वे स्व एवैनम् एनमायतने आयतने गृह्णाति आयतन इत्यायतने गृह्णात्यथो अथो स्वम् अथो इत्यथो स्वमेव एव छन्दः न पर्यावर्तन्ते पर्यावर्तन्ते राथन्दरः पर्यावर्तन्तैः पर्यावर्तन्ते राथंदरो वै तरः वा ऐन्द्रवायवः ऐन्द्रवायवो राथन्तरम् ऐन्द्रवायवैत्यैन्द्रावायवः राथन्तरम् पञ्चमम् राथन्तरमिति राथन्तरम् पञ्चममहः अहस्तस्मात् तस्मात् पञ्चमे पञ्चमेऽहन् अहम् नैन्द्रवायवः ऐन्द्रवायवो गृह्यते ऐन्द्रवायव इत्यैन्द्रावायवः गृह्यते स्वे स एवैनम् एनमायतने आयतने गृह्णाति आयतन इत्या आयतने गृह्णाति बार्हतः बार्हतो वै वै शुक्रो बार्हतम् वारः षष्ठं षष्ठमहः अहस्तस्मात् तस्मात् षष्ठे षष्ठे अहन् अहं शुक्रः शुक्रो गृह्यते गृह्यते स्वे स्व आयतने गृह्णाति आयतन इत्यायतने गृह्णात्येतत् एतद्वै वै द्वितीयं यज्ञं यज्ञमापत् आपद्यत् यच्छन्दांसि शृन्द्रागस्यात्मोति आत्मोतिर् यच्छुक्रः शुक्रश्वः श्वो गृह्यते ये गृह्यते यत्र यत्रैव एव यज्ञम् यज्ञमदृशन् अदृशन्तरः तत एवम् एनमृहः पुनः प्रयुङ्क्ते युङ्क्ते वै तिष्टुङ्मुख इति त्रिष्टुमुखः वै तृतीयः प्रेष्णुभः शुक्रः शुक्रो यत् यत्सप्तमे सप्तमेऽहन् अहम् शुक्रः शुक्रो गृह्यते गृह्यते स्वे स्व एवम् एनमायतने आयतने गृह्णाति आयतन इत्यायतने गृह्णात्यथो अथो स्वम् अथो विद्यथोः स्वमेव एव छन्दः छन्दोनु अनुपर्यावर्तन्ते पर्यावर्तन्ते वा पर्यावर्तन्त आग्रेणो वागष्टमम् अष्टममह अहस्तस्मात् तस्मादष्टमे अष्टमेहन् अहन्नाग्रेणः आग्रेणो गृह्यते गृह्यते स्वे स्व एवैनम् एनमायतने आयतने गृह्णाति आयतन इत्या आयतने गृह्णाति प्राणः प्राणो वै प्राण इति प्राणः वा अय इन्द्रवायवः ऐन्द्रवायवः प्राणः ऐन्द्रवायव इत्य इन्द्रवायवः प्राणो नवमम् प्राण इति प्राणः नवममहः अहस्तस्मात् तस्मान्नवमे नवमे अहन् अहन्नैन्द्रवायवः ऐन्द्रवायवो गृह्यते ऐन्द्रवायव इत्यन्द्रवायवः गृह्यते स्वे स्व एवैनम् एनमायतने आयतने गृह्णाति आयतन इत्यायतने गृह्णात्येतत् एतद्वै वै तृतीयं तृतीयं यज्ञं यज्ञमापत् आवर्जत् यच्छन्दा छन्दाकस्याप्नोति आप्नोति यद् यदैन्द्रवायवः ऐन्द्रवायवः श्वः ऐन्द्रवायव इत्यन्द्रवायवः स्व गृह्यते गृह्यते यत्र यत्रैव एव यज्ञम् यज्ञमदृशन् अदृशन्ततः तत एवैनम् एनम् पुनः पुनः प्रयुङ्क्ते युङ्केऽथोः अथोस्वम् अथो एव छन्दः छन्दोनु अनुपर्यावर्तन्ते पर्यावर्तन्ते पथः पर्यावर्तन्ते इति पर्यावर्तन्ते तथो वै वा एते एतेधि अध्यपथेन अपथेन यन्ति इन्द्रिये ये प्रतिपद्यन्ते ऐन्द्रवायवादित्य प्रतिपद्यन्ते अन्तः खलु खलु वै वा एषः एष यज्ञस्य यद् यद्दशमम् दशममः अहर्दशमे दशमे अहन् अहन्नैन्द्रवायवः ऐन्द्रवायवो दृश्यते ऐन्द्रवायव इत्यन्द्रवायवः कृष्यते यज्ञस्य यज्ञस्यैव एवान्तम् अन्तम् गत्वा गत्वा पथात् अपथात् पन्थाम् पन्थामपि अपिहन्ति यञ्जो अथो यथा अथो इत्यथो यथा वहीयसा वहीयसा वही प्रतिसारम् प्रतिसारम् वहन्ति प्रतिसारमिति प्रतिसारम् वहन् तादृगेव एव तत् तच्छन्दाकम् से छन्दाकस्यन्यः अन्योन्यस्य अन्यस्य लोकम् लोकमभि अभ्यध्यायन् अध्यायन्तानि तान्येतेन एतेनैव एव देवाः देवावि व्यवाहयन् अवाहयन् इन्द्रवायवस्य ऐन्द्रवायवस्य वै ऐन्द्रवायवस्येत्य इन्द्रवायवस्य वा एतत् एतदायतनम् आयतनम् यत् आयतनमिद्यायतनम् यच्चतुर्थम् चतुर्थमहः अहस्तस्मिन् तस्मिन्नाग्रेणः आग्रेणो गृह्यते गृह्यते तस्मात् तस्मादाग्रेणस्य आग्रेणस्यायतने आयतने नवमे आयतन इत्यायतने नवमेहन् अहन्नैन्द्रवायवः ऐन्द्रवायवो गृह्यते ऐन्द्रवायवैद्य इन्द्रवायवः गृह्यते शुक्रस्य शुक्रस्य वै वा एर् एतदायतनम् आयतनयत् आयतन आयतनमित्या आयतनम् पञ्चमम् पञ्चममाह अहस्तस्मिन् तस्मिन्नैन्द्रवायवः तस्मिन्न ऐन्द्रवायवो दृश्यते ऐन्द्रवायव इत्यन्द्रवायवः गृह्यते तस्मात् तस्मादैन्द्रवायवस्य ऐन्द्रवायवस्यायतने ऐन्द्रवायवस्य यद्य इन्द्रवायवस्य आयतने सप्तमे आयतन इद्यायतने सप्तमेऽहन् अहम् शुक्रः शुक्रो गृह्यते गृह्यताग्रेणस्य आग्रेणस्य वै वा एतद् एतदायतनम् आयतनम् यत् आयतनमित्या आयतनम् अहस्तस्मिन् तस्मिन् शुक्रः शुक्रो गृह्यते तस्मात् तस्माच्छुक्रस्य शुक्रस्य आयतने आयतनेऽष्टमे आयतन इत्यायतने अष्टमेऽहन् अहन्नाग्रेणः आग्रेणो गृह्यते गृह्यते छन्दागम्सि छन्दागस्येव एव तत् तद्वि विवाहैर्वाहैर्प्रवस्य सः वस्यसो विवाहम् विवाहमाप्नोति विवाहमिति विवाहम् आप्नोति यः एवम् एवम् वेद वेदाथो अथो देवताभ्यः अथो इत्यथो देवताभ्य एव यज्ञे यज्ञे संविदम् संविदम् दधाति संविदमिति संविदम् दधाति तस्मात् तस्मादिदम् इदमन्यः अन्यो अन्यस्मै अन्यस्मै ददाति ददातीति ददाति प्रजापतिरकामयत प्रजापतिरति प्रजापतिः रकामयत प्रजायेय प्रजायेयति इति सः स एतम् एतम् द्वादशरात्रम् द्वादशरात्रम् अवर्ष्यते तमा आहरत् अहरत्तेन तेनायजत अयेजततः ततो वै वै अजायतयः यः कामयेत कामयेदप्र प्रजायेय जायेति इति सः द्वादशरात्रेण द्वादशरात्रेण द्वादशरात्रेणेति द्वादश रात्रेण ैव एव जायते जायते ब्रह्मवादिनः ब्रह्मवादिना वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति अग्निष्टोपप्रायणाः अग्निष्टोपप्रायणा यज्ञाः अग्निष्टोपप्रायणा इत्यग्निष्टोपप्रायणाः यज्ञाथ कस्मात् यस्मादतिरात्रः अतिरात्रः पूर्वः अतिरात्र इत्यति ऊर्वः प्रयुज्यते युज्यत इति चक्षुषि चक्षुषि वै चक्षुषि इति चक्षुषि वायते एते यज्ञस्य एते इत्येते यज्ञस्येत् यदतिरात्रौ अतिरात्रौ कनीनिके अतिरात्रा विद्यत्रौ कनीनिके अग्निष्टोमौ कनीनिके इति कनीनिके अग्निष्टोमौ यत् अग्निष्टोमा वित्यग्निस्तोमौ यदग्निष्टोमम् अग्निष्टोमम् पूर्वम् अग्निष्टोम वित्यग्निस्तोमम् पूर्वम् प्रयुञ्जीरन् प्रयुञ्जीरन् बहिर्धा प्रयुञ्जीरन्निति प्रायुञ्जीरन् बहिर्धा कनीनिके बहिर्धेति बहिधा कनीनिके दध्योः कनीनिके इति कनीनिके दध्यस्तस्मात् तस्मादतिरात्रः अतिरात्रः पूर्वः अतिरात्र युध्यति पूर्वः प्रयुज्यते युज्यते चक्षुषी चक्षुषी एव चक्षुषी इति चक्षुषी एव यज्ञे यज्ञे धित्वा धृत्वा मध्यतः दध्यतः कनीनिके प्रति कनीनिके इति कनीनिके प्रतिदधति दधति यः यो वै वै गायत्रीम् गायत्रीम् ज्योतिःपक्षाम् ज्योतिःपक्षाम् वेद ज्योतिःपक्षामिति ज्योतिः पक्षाम् वेद ज्योतिषा लोकम् स्वर्गमिति लोकमेति एतयौ यावग्निष्ठोमौ अग्निष्ठोमौ तौ अग्निष्ठोमावित्यग्ने तौ पक्षौ पक्षौ ये यदितरे अन्तरेऽष्टौ अष्टामुक्थ्याः बुक्थ्याः सह स आत्मा आत्मैषा एषा वै वै गायत्री गायत्री ज्योतिष्पक्षा ज्योतिष्पक्षायाः ज्योतिष्पक्षेति ज्योतिःपक्षाः यदेवम् एवम् वेद वेदज्योतिषा ज्योतिषा भासा भासा सुवर्गम् स्वर्गम् लोकम् लोकमेति एति प्रजापतिः प्रजापतिर्वै प्रजापतिरिति वा एषः एष द्वादशधा द्वादशधा विहितः द्वादशधेति द्वादशाधा विहितौ यत् विहित इति विहितः त्रिवादशरात्रः द्वादशरात्रौ यौ द्वादशरात्रैति द्वादश यावति रात्रौ अतिरात्रौ तौ अतिरात्रा विद्यति रात्रौ तौ पक्षौ पक्षौ ये एन्तरे अन्तरेष्टौ अष्टावुक्थ्याः उक्थ्याः सह स आत्मा आत्मा प्रजापतिः प्रजापतिर्वाव प्रजापतिरिति प्रजापतिः वा वैशः एष सन् सा वै सत्रेण सत्रेण स्पृणोति शृणोति प्राणाः प्राणा वै प्राणाः वै सत् सत्प्राणान् प्राणानेव प्राणानिति प्राणान् एव स्पृणोति शृणोति वै वा एते एते प्रजानाम् प्राणैः प्रजानामिति प्राजानाम् प्राणैरासते प्राणैर्विप्राणैः आसते ये ये सत्रम् सत्रमासते आसते तस्मात् तस्मात् पृच्छन्ति पृच्छन्ति किम् किमेते इति प्रियः प्रियः प्रजानाम् प्रजानामुत्थितः प्रजानामिति उत्थितो भवति उत्थित इत्युतोस्थितः भवति यः य एवम् एवं वेद वा एषः एषो अन्यतो वैश्वानरः अन्यतो वैश्वानरः स्वर्गाय अन्यतो वैश्वानरः इत्यन्यतः वैश्वानरः स्वर्गाय लोकाय स्वर्गाय इति सुबहागाय लोकाय प्राभवत् प्रभवदूर्ध्वः ऊर्ध्वोः ह वै आततः आसीत् आतत इत्याततः ते देवाः देवा एतम् एतम् वैईश्वानरम् वैश्वानरम् परि पर्यौहन् अहन् सुवर्गस्य सुवर्गस्य लोकस्य सुवर्गस्येति सुभागस्य लोकस्य प्रभोवत्यै प्रभोवत्या ऋतवः प्रभोवत्या वा एतेन एतेन प्रजापतिम् प्रजापतिमयाजयन् प्रजापतिमिति प्रजापतिम् प्रयाजयन्तेषु एष्वार्ध्वोद् आर्ध्वोदधि अधि तत् तदृध्नोति रुध्नोति ह वै वा ऋत्विक्षु ऋत्विक्षुयः एवम् एवम् विद्वान् विद्वान् द्वादशाहेन द्वादशाहेन यजते द्वादशाहेनेति द्वादशाहेन यजते ते तेऽस्मिन् तस्मिन्नैच्छन्त नैच्छन्तसः स रसं रसमः अहवसन्ताय ससन्ताय प्रायच्छत् अयच्छद्यवम् एवम् ग्रीष्माय ग्रीष्मायौषधीः ओषधीर्वृषाभ्यः वर्षाभ्यो व्रीहीन् व्रीहीञ्छरदे शरदे माषतिलौ माषतिलौ हेमन्तशिशिराभ्याम् माषतिलाविति माषातिलौ हेमन्तशिशिराभ्याम् तेन हेमन्तशिशिराभ्यामिति हेमन्ताशिशिराभ्याम् तेनेन्द्रम् इन्द्रम् प्रजापतिः प्रजापतिरयाजयत् प्रजापतिरिति प्रजापतिः रयाजयत् ततः ततोऽपि वा इन्द्रः इन्द्र इन्द्रः इन्द्रोऽभवत् अभवत्तस्मात् तस्मादाहुः यज्ञः जावरस्य अनुजापरस्य जावरस्य यज्ञ इति सः स हि एतेन एतेनाग्रे अग्रे यजत अयेजतैषः एषः क वै वै कुणपम् कुणपमद्य प्रत्ययः सत्रे सत्रे प्रति प्रतिगृह्णाति पुरुषगुणपम् प्रतिगृह्णाति इति प्रतिगृह्णाति पुरुषगुणपमश्वगुणपम् पुरुषगुणपमिति पुरुषागुणपम् अश्वगुणपम् गौः अश्वगुणपमित्यश्वागुणपम् गौर्वै वा अन्नम् अन्नम् येन येन पात्रेण पात्रेणान्नम् अन्नम् बिभ्रति बिभ्रति यत् यत्तत् अन्न निजति निर्णे निर्णे निजति जति ततोऽधि अधिमलम् जायत एकः एक, एक एव यजेत यजेतैकः एको एक हि ये प्रजापतिः प्रजापतिराध्नोद् प्रजापतिरति प्रजापतिः आग्नो द्वादश द्वादशरात्रिः रात्रेक्षितः वेक्षितः स्यात् स्याद्वादश स्याद द्वादशमासाः मासाः मासा संवत्सरः संवत्सरः संवत्सरैः संवत्सरः संवत्सरः प्रजापतिः संवत्सरैः संवत्सरः प्रजापतिः प्रजापतिः प्रजापतिलदिप्रजावृधिः प्रजापतिर्वा वा प्रजापतिलदिप्रजावृधिः वा वैषः एष एषः एषः हतु त्वयि वै जायते जायते यः यस्तपसः तपसोभि चतुर्धा चतुर्धा वै चतुर्थेति चतुर्धा वा तिस्रस्तिस्रोरात्रयः तिस्रस्तिस्र इति तिस्रः तिस्रः रात्रयो यद् यद्वादश द्वादशोपसदः उपसरोयाः उपसर इत्युपासदः याः प्रथमाः प्रथमायज्ञम् यज्ञन्ताभिः ताभिः सम् सम्भरति भरतियाः या द्वितीयाः द्वितीया यज्ञम् ताभिरा आरभते रभतेयाः यास्तृदीयाः तृतीयाः पात्राणि पात्राणि ताभिः ताभिर्निः निर्णे निक्ते नैनिक्थेयाः याश्चतुर्थ्यैः चतुर्थीरपि अपि ताभिः ताभिरात्मानम् आत्मानमन्तरतः अन्तरतः शुन्धते शुन्धते यः प्रो वै वा अस्य अस्य पशुम् पशुमत्य अतिमागुंसम् मागुंसगुंसः सोऽक्ति अत्ययः यः प्रोडाशम् प्रोडाशम् मस्तिष्कम् मस्तिष्कगुंसः स यः यः परिभापमिति परीभापम् पुरीषगुंसः स यः य मज्जानम् मज्जानंसः स यः यः सोमम् सोमग्ंसः सोऽपि हवै वा अस्य अस्य शीर्षण्याः शीर्षण्या निष्पदः प्रति निष्पद इति निहीपदः प्रति गृह्णाति द्वादशाहे प्रतिगृह्णाति द्वादशाह इति द्वादशाहे प्रतिगृह्णाति तस्मात् प्रतिगृह्णाति इति प्रतिगृह्णाति तस्माद्वादशाहेन द्वादशाहेन द्वादशाहेनेति द्वादशाहेन न याज्यम् याज्यम् पाग्मनः पाप्मनो व्यावृत्त्यै व्यावृत्त्या इति वि आवृत्त्यै एकस्मै स्वाहा स्वाहा द्वाभ्याम् द्वाभ्याम् स्वाहा स्वाहा त्रिभ्यः त्रिभ्यस्वाः त्रिभेति त्रेभ्यः साः चतुर्भ्यः चतुर्भ्यस्वाः चतुर्भेति चतुर्भ्यः साहा पञ्चभ्यः पञ्चभ्यस्वाः पञ्चभेति पञ्चाभ्यः साहाषड्भ्यः षड्भ्यस्वाः षड्भेति षडेभ्यः साहा सप्तभ्यः सप्तभ्यस्वाः सप्तभ्येति सप्ताभ्यः स्वाहाष्टाभ्यः अष्टाभ्यस्वाहा नवभ्यः नवभ्यस्वाः नवभ्येति नवाभ्यः सा दशभ्यः दशभ्यस्वाहा दश फेरिदशाभ्यः सा हैकादशभ्यः एकादशम्भ्यस्वाः एकादशम्भ्यैत्येकादशाभ्यः साहाद्वादशभ्यः द्वादशम्भ्यःस्वाः द्वादशम्भैरि द्वादशाभ्यः सा त्रयोदशभ्यः त्रयोदशम्भ्यःस्वाः त्रयोदशभैरित्रयोदशाभ्यः सा हा चतुर्दशभ्यः चतुर्दशम्भ्यस्वाः चतुर्दश द्भैरिचतुर्दशाभ्यः सा हा पञ्चदशभ्यः पञ्चदशम्भ्यस्वाः पञ्चदशभैरिपञ्चदशाभ्यः सा हा षोडशभ्यः ्यस्वाः षोडशभेदिषोडशाभ्यः साः सप्तदशभ्यः सप्तदशभ्यस्वाः सप्तदशभेदि सप्तदशाभ्यः साहादशभ्यः अष्टादशभ्यस्वाः अष्टादशभ्येत्यष्टादशाभ्यः स्वाहैकात् एकान्न विंशत्यै सः स्वाहा नवविंशत्यै नवविंशत्यै स्वाहा नवविंशत्यावा विंशत्यै स्वाहैकाद् एकान्न न चत्वारि विंशते चत्वारि विंशते स्वाहा स्वाहा नवचत्वारिविंशते नवचत्वारि विंशते स्वाहा नवचत्वारि विंशति नवचत्वारिविंशते स्वाहैकाद् एकान्न षष्ट्यै षष्ट्यै स्वाहा स्वाहा नवषष्टि नवषष्टि स्वाहा नवषष्ट्यायद् नवाषष्टिः स्वाहैकाद् एकान्न नाशीत्यै अशीति स्वाहा स्वाहा नवाशीत्यै नवाशीत्यै स्वाहा नवाशीत्यादि नवाशीत्यै स्वाहैकाद् एकान्न शताय शताय स्वाहा स्वाहा शताय शताय स्वाहा स्वाहा द्वाभ्याम् द्वाभ्यागम् शताभ्याम् शताभ्याग स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेतिस्वाः एकस्मै स्वाहा सा त्रिभ्यः त्रिभ्यस्वाः त्रिभ्येति त्रिभ्यः साः पञ्चभ्यः पञ्चभ्यस्वाः पञ्चभ्येति पञ्चाभ्यः साः सप्तभ्यः सप्तभ्यस्वाः सप्तभ्येति सप्ताभ्यः सा नवभ्यः नवभ्यस्वाः नवभ्येति नवाभ्यः सा हैकादशभ्यः एकादशभ्यस्वाहा एकादशभ्येत्येकादशाभ्यः सा त्रयोदशभ्यः त्रयोदशभ्यस्वाः त्रयोदशभेति त्रयोदशाभ्यः स्वाहा पञ्चदशभ्यः पञ्चदशभ्यस्वाहा पञ्चदशभ्येरिपञ्चदशाभ्यः स्वाहा सप्तदशभ्यः सब्दशभ्य स्वाहा सब्दशभ्येदिसप्तदशाभ्यः स्वाहैकात् एकान्न न विगुंशत्यै विगुंशत्यै स्वाहा स्वाहा नवविघुंशत्यै नवविंशत्यै स्वाहा नवविंशत्यः इति नव विपुंशत्यै एकान्न न चत्वारि विंशते चत्वारि विंशते स्वाहा स्वाहा नवचत्वारि विंशते नवचत्वारि विंशते स्वाह नवचत्वारिविंशति नवचत्वारिविंशतेः स्वाहैकाद् एकान्न न षष्ट्यै षष्ट्यै स्वाह सहा नवषष्टि नवषष्टिस्वाहा नवषष्ट्या इति नवषष्टिः साहैकाद् एकान्न नाशीत्यै अशीत्यै स्वाहा साहा नवाशीत्यै नवाशीत्यै स्वाहा नवाशीत्या नवाशीत्यै स्वाहैकात् एकान्न शताय श्रताय स्वाहा स्वाहा शताय श्रताय स्वाहा स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेति स्वाहा द्वाभ्यादि स्वाहा स्वाहा चतुर्भ्यः चतुर्भ्य स्वाहा चतुर्भेति चतुर्भ्यः स्वाहा षड्भ्यः षड्भ्य स्वाहा षड्भे तिषेभ्यः अष्टाभ्यस्वाहा स्वाहा दशभ्यः दशभ्यस्वाहा दशभेरिदशाभ्यः साहा द्वादशभ्यः द्वादशभ्यस्वाहाः द्वादशभेरिद्वादशाभ्यः सा हा चतुर्दशभ्यः चतुर्दशभ्यस्वाः चतुर्दशभेरिचतुर्दशाभ्यः साहा षोडशभ्यः षोडशभ्यस्वाहाः षोडशभेरिषोडशाभ्यः साहादशभ्यः अष्टादशभ्यस्वाहा अष्टादशभ्येल्यष्टादशाभ्यः स्वाहा विपुंशत्यै विपुंशत्यै स्वाहा स्वाहा अष्टानवत्यै अष्टानवत्यै स्वाहा अष्टानवत्या इत्यष्टानवत्ै स्वाहा शताय शताय स्वाहा स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेति स्वाहा त्रिभ्यः स्वाहा त्रिभ्येति स्वाहा पञ्चभ्यः पञ्चभ्यस्वाः पञ्चभ्येति पञ्चाभ्यः साहा सप्तभ्यः सप्तभ्यस्वाः सप्तभेतिसप्ताभ्यः साहा नवभ्यः नवभ्यस्वाः नवभ्येति नवाभ्यः साहैकादशभ्यः एकादशभ्यस्वाः एकादशभ्येत्येकादशाभ्यः साहा त्रयोदशभ्यः त्रयोदशभ्यस्वाः त्रयोदशभेति त्रयोदशाभ्यः साहा पञ्चदशभ्यः पञ्चदशभ्यस्वाहा पञ्चदशभ्यैति पञ्चदशाभ्यः स्वाहा सप्तदशभ्यः सप्तदशभ्यस्वाः सप्तदशभ्यैति सप्तदशाभ्यः स्वाहीकात् एकान्न न विविंशत्यै विविंशत्यै स्वाहा स्वाहा नवविंशत्यै नवविंशत्यै स्वाहा नवविंशत्यादिति नवा विविंशत्यैः स्वाही कात् एकान्न न चत्वारि विंशते चत्वारि स्वाहा स्वाहा नवचत्वारि विंशते नवचत्वारि विंशते स्वाहा नवचत्वारिविंशति नवाचत्वारिविंशते साहिकात् एकान्नषष्टिषष्टि सहा साहा नवषष्टि नवषष्टि सहा नवषष्ट्यादिति नवाषष्टिः साहिकाद् एकान्न नाशीत्यै अशीत्यैस्वाहा नवाशीत्यै नवाशीत्यैस्वाह नवाशीत्यादिति नवा अशीतिः साहिकाद् एकान्न शताय शतायस्वाः स्वाहा शताय शतायस्वाः स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेतिस्वाहा चतुर्भ्यस्वाहा चतुर्भेदि चतुर्वभ्यः स्वाहाष्टाभ्यः अष्टाभ्य स्वाहाः स्वाहा द्वादशभ्यः द्वादशभ्यस्वाः द्वादशभ्येदि द्वादशाभ्यः स्वाहा षोडशभ्यः षोडशभ्यस्वाः षोडशभ्येदि षोडशाभ्यः स्वाहा विगुंशत्यै विगुंशत्यै स्वाहा स्वाहा षण्णवत्यै षण्णवत्यै स्वाहा षण्णवत्यादि तिषण्णवत्यै स्वाहा शताय शतादिवाहा स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेति स्वाहा पञ्चभ्यस्वाहा पञ्चभ्येति पञ्चाभ्यः स्वाहा दशभ्यः दशभ्यस्वाहा दशभ्येति दशाभ्यः स्वाहा पञ्चदशभ्यः पञ्चदशभ्यः स्वाहा पञ्चदशभ्येति पञ्चदशाभ्यः स्वाहा विविंशत्यै विविंशत्यै स्वाहा स्वाहा पञ्चनवत्यै पञ्चनवत्यै स्वाहा पञ्चनवत्या इति पञ्चानवत्यै स्वाहा शताय शतादस्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेति स्वाहा दशभ्यस्वाहा दशभ्येतिदशाभ्यः स्वाहा विविंशत्यै विंशत्यै स्वाहा स्वाहा त्रिविंशतये त्रिविंशते स्वाहा सः चत्वारिविंशते चत्वारिविंशते स्वाहा सः पञ्चाशत् पञ्चाशते स्वाहा सः षष्टि षष्टी स्वाहा सः सप्तत्यै सप्तत्यै स्वाहा सः शीति अशीति स्वाहा सः नवत्यनवत्यै स्वाहा सः शताय शतादस्वहा सर्वस्मै सर्वस्मै स्वाहा स्वाहा त्रिविंशत्यै स्वाहा सः चत्वारिविंशते चत्वारिविंशते स्वाहा षष्टि षष्टी स्वाहा स्वाहाशीति शैत्ये स्वाहा स्वाहा शताय शतायस्वाहा स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेति स्वाहा पञ्चाशते स्वाहा स्वाहा शताय शतायस्वाहा स्वाहा द्वाभ्याम् द्वाभ्याविंशताभ्याम् शताभ्यागस्वाहा स्वाहा त्रिभ्यः त्रिभ्यः शतेभ्यः त्रिभ्येदि त्रिभ्यः शतेभ्यस्वाः साः चतुर्भ्यः चतुर्भ्यः शतेभ्यः चतुर्भेदिशतोभ्यः शतेभ्यस्वाः पञ्चभ्यः पञ्चभ्यश्चतेभ्यः पञ्चभेलिपञ्चाभ्यः भ्या। शतेभ्यस्वाः साहाभ्यः षड्भ्यः शतेभ्यः षड्भेदिशतेभ्यः शतेभ्यस्वाहाः स्वाहा सप्तभ्यः सप्तभ्यश्चतेभ्यः सप्तभेलि सप्ताभ्यः शतेभ्यस्वाहा स्वाहाष्टाभ्य अष्टाभ्यश्चतेभ्यः शतेभ्य स्वाहा स्वाहा नवभ्यः नवभ्यः शतेभ्यः नवभ्येति नवाभ्यः शतेभ्य सहस्राय सहस्रा यस्वाः सर्वस्मै सर्वस्मै स्वाहा स्वाहेति स्वाहा शता यस्वाः स्वाहा सहस्राय सहस्रा यस्वाः स्वाहायुताय अयुता यस्वाः स्वाहा नियुताय नियुता यस्वाः नियता नियतायेति नियुताय स्वाहा प्रयुताय प्रयुतायस्वाहा प्रयुतायेति प्रायुताय साहार्भुदाय अर्बुदा यस्वाहा सा हान्यर्बुदाय निर्बुधा यस्वाहा न्यर्बुदायेति अर्बुदाय साहासमुद्राय समुद्रा साहा यस्वाहा सा हाध्याय अध्यायस्वाहा स्वाहान्द्राय अन्दायस्वाहा स्वाहा परार्थाय परार्धा यस्वाहा परार्धायैति परार्धाय स्वाहोषसे वृषसे यस्वाहा सा हव्युष्टि युष्ट्यै स्वाहा युष्ट्यादिभि युष्टिः साहोदेश्वरे उदेशरे स्वाहाश्वरेश्वरे स्वाहोद्ये उद्यते स्वाहा उद्यते सा होदिताय उदितायस्वाहा उदितायन्ति स्वर्गाय स्वर्गायस्वाहा स्वर्गायदि स्वहागाय साहा लोकाय लोकायस्वाहा स्मै सर्वस्मै सह स्वहे स्वः ओ सप्तमकाण्डे द्वितीयः पृष्टः समाप्तः